ष्टके तृतीयप्रश्नः प्रारम्भः चतुर्मितिरः तेन चतुर्होतारः तस्माच्चारोच्यन्ते चतुर्होदृणाञ्चतुर्तुर्होतास्मञ्च होता धाता षट्होता इन्द्रः सप्त होता प्रजापतिषहोता एवम् चतुर्होतराम् वेदेव येषामेवम् बन्धुताम् वेद बन्धुमान् भवति येषामेवम् वृत्तिम् वेद कल्पतेऽस्मि येषामेवमायतरम् वेद आयितवान् भवति येषामेवम् प्रतिष्ठाम् वेद प्रत्येव तिष्ठति ब्रह्मवादिना वदन्ति दशहोता चतुर्होता पञ्चहोता षट् होता अथ कस्माच्च द्रोतारोच्यन्त इति इन्द्रवीजलवी श्रेष्ठदेवतानामुपदेशनात् एवमिन्द्रेष्ठम् देवतानामुपदेशनात् वेदमानानाम् भवति तस्माच्छ्रेष्ठमायन्दम् प्रथमेनैवानुबध्यन्ते अयमागन् अयमवा सादिरि कीर्तिरस्य पूर्वागच्छति जनता मायतः अतोनम् प्रथमेनैवानुबध्यन्ते अयमागन् अयमवा हम् प्राणानेपदाशैली स्मै कल्पयति प्रायश्चित्यैवादमुखे जहोदि ऋतो नैवास्मै कल्पयति कल्पन्ते स्मार्दवः कृत्वा स्म ऋतवै भूत्वा प्रजापतिरजगो सर्वमसृजिता समनोऽसृजिता मनसोऽधिकायत्रीमसृजता ीन्विषाक्षर तामालभता गायत्रेदान्दो तत्सामेषाक्षर तदालभता साम्नाधेजोगस्य तदेन्नादिप्राच्यवद इन्द्रैव सस्मी भवति एवं वेदप्रत्यवदे यद्वा इदं किञ्च तत्सर्वमुत्तान एवाङ्गीरसप्रत्यगृह्णात् तदेन प्रतिनाहि प्रतिगृह्णीयात् तत्सर्वमुत्तान त्वािरसप्रतिगृह्णाति इत्येव प्रतिगृह्णीयात् इयम् वा उत्तान आङ्गीरसः न प्रतिगृह्णाति याम् वाम् वा एतदेव शोनाम् नाविर्तयते भवति अथयो विद्वान् वर्तयते सशीर्षापिपाः मामुष्मिल्लोके भवति देवतावै सप्तपुष्टिकामान्यवर्तयन्त अग्निश्च वृहीषा वायुश्चान्तरिक्षम् च आदित्यश्चन्द्रमाहाः स रश्मिभिरपश्यत् यौर्न्यवर्तय सा नक्षत्रैरपश्य चन्द्रमान्यवर्तय सोः रात्रैरुद्धमाजे माजैत तान् एवम् वित्नान्य च वर्तते परिजा तस्य वाहक्रामत् तदेतेनैव प्रत्यगृह्णात् तेन वै सोर्थमिन्द्रियस्यात्मनुपाधत्ता अर्थमिन्द्रियस्यात्मनुपाधत्ते एवम् वित्नान् हैरण्यम् प्रति गृह्णाति अथयो वित्नान् प्रति गृह्णाति अर्थमस्येन्द्रियस्यापक्रामदि तस्य वै सोमस्य वासप्रत्यग्रहुष स्त्रीमिन्द्रियस्यापाहक्रामत् ैव प्रत्यगृह्णात् तेन वै स तृतीयमिन्द्रियस्यात्मनुपादत्तात्मनि एवम् विद्वान् वासप्रतिगृह्णादि अथैव विद्वान् प्रतिगृह्णादि तृतीयस्य इन्द्रियस्यापक्रामदि तस्य वैर्थस्यामिन्द्रियस्यामद ैव प्रत्यगृह्णात्थमित्त्वा गृह्णातिैव प्रत्यगृह्णात् पञ्चममिन्द्रियस्यात्मनुपादत्तमिन्द्रियस्यात्मनुपाधत्ते एवम् विद्वानश्वम् प्रति गृह्णाति गह्णादि पञ्चमस्य अपक्रामदि तस्य वै प्रजापतेः पुरुषम् प्रतिग्रहषः षष्ठमिन्द्रियस्यापाक्रामेनैव प्रत्यगन्नात् येन वेष षष्ठमिन्द्रियस्यात्मन्पादत्त षष्ठमिन्द्रियस्यात्मनुपादत्ते एवम् विद्वान् पुरुषम् प्रति गृह्णाति अथयो विद्वान् प्रति गृह्णाति षष्ठमस्य मनोस्तल्पम् प्रत्यगृह्णात् तेन वे सप्तममिन्द्रियस्यात्मन्न बाधत्ता सप्तममिन्द्रियस्यात्मन्न बाधत्ते एवम् विद्वा विस्तल्पम् प्रति गृह्णाति अथयो विद्वान् प्रति गृह्णाति सप्तममस्येन्द्रियस्यापक्रामति तस्य वा उत्तानस्याङ्गेक्रमुषः अष्टममिन्द्रियस्यापाक्रामेनैव प्रत्यगृह्णात् तेन वेदोऽष्टममिन्द्रियस्यात्मन्वदत्त अष्टममिन्द्रियस्यात्मन्वदत्ते एवम् वित्त्वानप्राणप्रतिगृह्णाति तथैव विद्वान् प्रतिगृह्णाति अष्टमस्य इन्द्रियस्यापक्रामदि यद्वा इदङ्गम् च तत्सर्वमुत्तान एवाङ्गेरत्प्रत्यगृह्णात् अदये नमः प्रकृते कन्नाहेनद अकिञ्जपदेगं न्न्याद तत्सर्वम उत्तानस्तारांगिरदपतेन नाप्तिदेवपदिनियाद यमभाव उत्तानारंगीरसा नयवेन प्रजन्नाति नयनागोहनस्ते ब्रह्मादिना वन्दे इत्तजवादाल सत्रमासदः केनद जयघदनार्तुन्न केरप्रकासयन्देदे जयावदनं जयघदनार्तुन्न केनपुजाजृन्ता इत्तजवादाल सत्रमासदः न्नेभ्यो लोकेभ्योऽसरान्प्राणदन्ता केनैषाम् पुशो न वृञ्जदा यत् षट्टो दार्सत्रमासदा केन ते गृहवदनाध्वन् न् समदनेव सत्रना बृद्ध र्यमनम् वेद नानकामास्मै दा, प्रजाभवन्ति यज्ञौवार्यमा आर्यावसतिर्गीतमार्यम् आर्यावसतिर्भवति एवम् वेद यद्वादि तत्सर्वम् चतुर्होकारः चतुरभ्योधि यज्ञानन्वितः स य एवम् विद्वान् विपदेत अहमेव भूयो वेद यश्चतुरो वेदेति तष्टेव भो यो वेद यश्चतुर्होद्रोऽन्वेद योतुर्होदृ नागुभोन्वेद सर्वासु प्रजास्वन्दो नागुभता सोमश्चतुर्होदृ अग्निः पञ्च होतृ नागुम्भताः हर्यमासप्तहोदृ नागुम्भतार्होदृ नागुम्भोदासु प्रजास्वन्नमत्ति सर्वादिशोऽ ग्निहात्रेणैवैक्यकृतनापर्यावर्तन्तान्धोहन् तस्मादग्निहात्रस्यैक्यक्रतोेर्वायुराश्चन्द्रमानाः हे प्रत्युषण् श्चत्वार्यङ्गानि तस्मादर्शपयः ते चेदनावर्यावर्तन्तम् तस्माच्चादुर्मास्यानाः यज्ञकृताः पञ्चत्रयः षट् कृत्वाश्वेदृत्यशन्म ते पशुबन्धे नैवैज्ञकृतनापर्यावर्तन्त तस्मात् सौम्यस्या धरस्य कृतन्ति दश होता चतुर्होता पञ्च होता षट् होता सप्त होदा एकहोत्रे फलिगो हरन्ति हरन्त्यस्मै प्रजापलिम् ऐ नमप्रतिख्यातम् गच्छति एव वेदा प्रजापतिपुरुषमुदृता सोऽ सर्वम् आत्मानमस्कृतम् जुहोति एकहोत्मात्यम् कृत्मनस्पृणोति आदित्यस्य चतुर्णयति चतुर्होरमेव कृतमाः भासौ चत्वारि चात्मनाङ्गानि स्मृणोति आदित्यस्यमेव पुनम् प्राणम् कानिदात्मनः स्फुणोति आदित्यस्य रसाहित्यम् गच्छति चतुर्ण इति मृत्युहोति ी सप्तहोदारम् सदात्मनस्य आदित्यस्य कृतमात्मानमपर्गति आदित्यस्य हरितश्यामो भवतिः कृष्णश्यामो भवत् तस्मात्तान्तः कृष्णश्यामो भवति तस्यासुरे वाजीवद्ेनासुनासुरान्सृजत सदसुराणामसुरत्वम् एवमसराणामसुरत्वम् वेद सुमानेव भवति नैनमसृजहाति सोदरान् दृष्ट्वापि देवामञ्जत तदनुविदूनसृजत तत्प्यृणाम् एवं पितृत्वम् वेद एते वस्वानाम् व्यञ्जस्य विग्रोहव स विग्रोहम् दृष्ट्वा मनुष्यत् तदनु मनुष्यान् सृजत तन्मनुष्याणाम् मनुष्यत्वम् एवम् मनुष्याणाम् मनुष्यत्वम् वेद मनस्वेव भवति नैनम् मनुज्यहादि तस्मै मनुष्यान् ससृजानायत्राभवत् तदनु देवान् सृजत तद्देवानाः देवत्वम् एवम् देवानाः देवत्वम् वेद दिवाहैवास्य देवत्रा भवति तानि वा एतानि चत्वार्यम् भागुंसि देवामृष्याः पितरवसराः तेषु सर्वेश्वम् एवम् वेद ब्रह्मवादिनो वदन्ति यो वा इमम् विद्यायम् भवते यदपि भवते यदपि सम्भवते सर्ववायुर्यात् न वायुशक्नुमीयेत कुशमान् स्यात् इन्देत प्रजा यो वा इमम् वेद यतोऽयम् यदपि सम्भवते सर्वमाभि नद्यः अपोभिभवते अपोभिसम्भवते अस्याः पवते इमामभिभवते इमामभिसम्भवते अग्नेः पवते अग्निमभिभवते अग्निमभिसम्भवते अन्तरिक्षात्पवदे अन्तरिक्षमभिभवते अन्तरिक्षमभिसम्भवते आदित्यात्पवते आदित्यमभिभवते आदित्यमभिसम्भवते दिवोपवदे दिवमभिभवते दिवमभिसम्भवते दिग्भ्यः पवदे दिशोऽभिभवते दिशोऽभिसम्भवते स यत्पुरस्ताद्वादि प्राण एव भूत्वा पुरस्ताहाद्वादि तस्मात् पुरस्तात्त्वा सर्वाः प्रजाप्रतिनन्दन्ति प्राणो हि प्रियप्रजानाः प्राणैव प्रियप्रजानाम् भवति एवम् वेद स प्राण एव अथयदक्षिणतो मादर्श्व भोक्त्वा दक्षुरुतोवादिक्षुरुतोवादि सर्वादिशान् विवादि सर्वादिशान्संवादि एष मादर्श्वमस्माहन्ति भूतमपहरन्ति येष्णादि एवम् वेद स वा एष भवमान एव अथैरुत्तरतोवादि सविदी भोत्तरतोवादि सविदेवस्वानाम् भवति एवं वेदैव ते येन पुरस्तादायन्दम् एवास्य पुरस्तात् प्रात्मानः एव खन्ति पुरस्तारान् बात्मनस्य चिन्ते तथ एवं दक्षिणदायन्दम् एवास्य दक्षिणप्रात्मानः दक्षिणदरान् बात्मनस्य चिन्ते अथ एन पुरस्तादायन्दमुपदन्ति एवास्य पुरश्चात् प्रात्मानः तागुस्थे पघ्नन्ति पश्चादितरान्पात्मनस्य चिन्ते अथ एनमुत्तरदायन्तमुपवदन्ति हेवास्योत्तरतः पात्मानः तागुस्थे पघ्नन्ति उत्तरदैतरान्पात्मनस्य चिन्ते तस्मादेवम् विद्वान् बीवनृत्येत् प्रेमजले वाक्षोभाषेत मुण्डयेदिव नाथयेदिव शृङ्गायेदेवादमापवदेयो उतमे पात्मानमपहन्युलि तया निशको सनिमेष्यन् स्यात् यदा तान्निसंवातो वाह्यात् अथ प्रवेयात् प्रवाधावयेत् सातमेव संयोगम् गन्धमभिप्रच्यपते कास्यलञ्जनपदम् पूर्वा कीर्तिर्गच्छति न कामास्मै प्रजाभवन्ति एवम् वेद प्रजापतिस्वामगोराजानवसृजत तन्त्र तानहस्ते कृता अथ सीता सावित्री स्वामगौराजानञ्च साह श्रद्धामुसजग्मे राजाने श्रद्धामुखगामै तस्याम् कल्पयित्वा दशोदारम् पुरस्ता व्याख्याय चतुरहोदारम् दक्षिणतः पञ्चहोदारम् पश्चाद् षट्दारमुत्तरतः सप्तहोदारमुपरिष्टाद् संहारैश्च पत्नीभिश्च मुखे अङ्कृत्य स्यार्थम् वम् राजाम्भो दीक्ष्यो वाच उपमावत्रेति खगुहो वाच भो गन्तुमहादक्ष्व एतन्महादक्ष्व यत्ते बाणाविधि तस्या उहत्री तस्मादुहस्त्रियो भोगमैव हारयन्ते स यः कामयेदप्रियः स्यामिति किं वा कामयेदप्रियः स्यादिति तस्मा एतद्गुस्था गमरङ्गारम् कल्पयित्वाख्याय चतुर्होदारम् दक्षिणतः पञ्चहोदारम् पश्चात् षड्होदारमुत्तरतः सप्तहोदारमुपृष्टात् सम्भारैश्च पत्नीश्च मुखे लङ्कृत्य आस्यात् संव्रजेत् प्रियो हैव भवति ब्रह्मात्मन्वदसृजत तदकामयत समात्मनापत्ययेति आत्मन्नात्मनित्यामन्त्रयत तस्मै दशमनोद् सदशहोदोऽभवत् दशहोदाहवीनामैषः ब्रह्म एतम् दशहोतकुंसन्तम् दशहोतेत्यादिक्षते परोक्षेण परोक्षप्रियाय व हि देवाः आत्मन्नात्मनित्यामुत्रयदा तस्मै सप्तनमो होदप्रत्यशुनात् स सप्त होदा भवत् सप्त होदाहवेनामेष तम्बा एतको सप्तहोदनुसन्तम् सप्तहोदेत्याचक्षते परोक्षेण परोक्षप्रियाय वहि देवाः आत्मन्नात्मनित्यामुत्रयद तस्मै षष्ठनमो होदप्रत्यशुनात् षड् होदा भवत् षड् होदाहवेनामेष तम्बा एतकम् षड्भोदकम् सन्तम् षड्भोदेत्याधीक्षते परोक्षेण परोक्षप्रियाय हि देवाः आत्मन्नात्मन्नित्यामन्त्रयदा तस्मै पञ्चमो होदः प्रत्यषुणोदोद पञ्चहोतो हवीनामैष तम्बा एतम् पञ्चहोतकम् सन्तम् पञ्चभोदेत्यादीक्षते परोक्षेण परोक्षप्रियाय हि देवाः आत्मन्नात्मन्नित्यामन्त्रयदा तस्मै चतुर्थगो होतप्रत्यशुणोद स चतुर्होतो हवैनाचक्षते परोक्षेण परोक्षिदेवाम्बै मेनेतिष्ठगो होतप्रत्यश्रौषीः अयीनाख्यातार इति तस्मान्वयै नागश्चतुर्होतार इत्याचक्षते तस्माच्छुश्रोषपुत्रा नागम् हृद्यतमः मेदिश्व हृद्यतमः ष्ठा ब्रह्मणा भवति इत्येवं वेदा इति द्वितीयाष्टके तृतीयः प्रश्नः समाप्तः